मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं सेवन्टीन् शिवपार्वतीसंवादसमाप्तिः श्रीगणेशाय नमः शिव उवाच गणेशगीतासारं ते श्रुत्वा पञ्चसुरेश्वराः ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् पञ्चदेवा ऊचुः भगवन्भवता सर्वं कथितं तद्ध्यमेव च तेन कृप्ता वयं स्वामिन्मोखशून्या तव दर्शनमात्रेण स्मरणं पूर्वकं कृतं गुणरूपां वयं ढुण्ढे कथं ब्रह्ममया वचनमकर्ण्युवा जगजानन भक्वत्सल तोषितासौ महाप्रभु गणेशवाच स्वदीप वै जगदीश भिन्न भाव गुणात्म मयाकृताः चतुर्विधेन भावेन क्रीडामि ननु तत्र च क्रीडया पतिदं बिम्बं तेन पञ्चविधो भवं बहुलेषु विलासेषु तेषु भावेषु देवपाः भवन्तो मदधीनाश्च संस्थिता नात्र संशयः येषु भिन्नविहारेषु रजसत्त्वतमो मयाः मया ब्रह्म हरिशम्भुर्भिन्ना जाता हि मायया अहङ्कारस्त्रिदेवानां सूर्यो मोहमयी तथा शक्तिस्त्रिगुणसिद्ध्यर्थमेदे पञ्चमया कृताः अहमत्र स्थितोंश्येन वक्रतुण्ड इति स्मृतः बिन्दुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः तुरीयं मे मया रूपं कृतं सुराः ज्ञातव्यं बुद्धिरूपं तद्दक्षिणाङ्गं प्रकथ्यते पञ्चदेवविहाराख्यं वामाङ्गं सिद्धिरूपकं सिद्धिबुद्धियुदोऽघं वै बिन्दुमात्रात्मको भवं भक्तानां विघ्नरूपा ये वक्रास्ते कथितासुरैः तां स्तुण्डेन हनिष्यामि वक्रतुण्डस्तदस्मृतः मम मायामया जीवाद्वक्रं ब्रह्ममुखं यतः तेनाहं वक्रतुण्डस्तु लभ्य उन्मनसा भवेः भवतां कार्यसिद्ध्यर्थं विहारार्थं तु मायया बिन्दुरूपधरो भूत्वा स्थितोहं भावपूर्वकं यदि मे स्मरणं यूयं विस्मरिष्यथ वै मायामोहेन सम्भ्रान्ता भविष्यथ महेश्वराः भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं कृधि आदौ पूज्यो भविष्यामि दैवेपित्र्ये च कर्मणि तेन सिद्धियुधाः सर्वे भविष्यन्ति न संशयः इत्युक्त्वार्दधे देवो गणेशो गणपालकः शिव उवाच ये ते कथिदी ध्यान पुरातन तम ध्याश ब्रह्मनायकंखिल ब्रह्मण सृष्टम चरा चरम विष्णु नावता सपागणपाज्ञया अहं संहारकारी च त्वं प्रमोदप्रदा शिवे कर्मणां न संशयः हिमाचलसुधा त्वं सुविस्मृतं त्वयाखिलं हृदित्तं च ज्ञानं गणपबोधकं मया सुस्मारितं तुभ्यं स्मर सर्वं शुजिस्मिते भवतीजमहामाया पश्य त्वं गणपं हृदि अष्टौ तस्यावतारांश्च कथयामि समासदः पचतातेन मार्गेण भवेद्योगो न दुर्लभः प्रथमो वक्रतुण्डश्च त्वं प्रदब्रह्म कथ्यते द्वितीयं एकदन्तश्च तत्पदब्रह्मबोधकः महोदरतृतीयस्तु ब्रह्मासि पदधारकं गजाननश्चतुर्थश्च साङ्ख्यरूपो महेश्वरी जम्बोदर यदि ख्यातो ह्येतद्ब्रह्मत्वयि स्थितं षष्ठो विकटनामा च सद्ब्रह्मात्मरविपरः विघ्नराजस्वयं विष्णुः सप्तमः धूम्रवर्णोष्टमः शम्भुरव्यक्तो अष्टब्रह्मसु तत्पाला कलारूपधरा स्मृताः गणपागणराजस्य ह्यवतारा प्रकीर्तिताः स्वसंवेद्यमयं ब्रह्म सर्वेषां ब्रह्मणां देवि खेलकस्तेन सस्मृतः अयोगस्यावतारश्च खेलनादिन विद्यते स्वानन्दवासिनं विद्धि खेलकं सततं प्रिये पूर्णयोगोगणाधीश्य स्वानन्दायोगवर्जितः योगिनां तत्र शान्तिश्च क्यभवद्योगसेवया यदि सामख्या युष्ठम देंी शोभनमीनाम गणेश भज सर्वकं कुछ गणेशो नात्र संशय पूज्य देशमया निम चिंतामणिनायक पंचा चिंतृत्तीशकत तेन चिन्तामणिर्नाम गजाननः गजवक्त्रात्मिकां मूर्तिं पश्य देवि गृहे स्थितां मणिरत्नमयीं साक्षात् सदाशिवः एकां देवीक्ष्य वै देवी विस्मिता सा भवत्परम् इत्युक्त्वा विररामाथशङ्करः करुणानिधिः तम् पुनः प्रत्युवाचेदं महादेवी जगन्मयी चक्रिरुवाच सर्वेषां मोहसन्धात्री तामसस्य सदाशिव तव पत्नी कथं जादाह्ये गागस्थिदस्य वै अमुम्मे संशयं देवच्चेत्तुमर्हसि साम्प्रतं त्वदन्यः संशयच्चेत्ता सर्वज्ञो नास्ति कुत्रचिद पार्वतीवचनं श्रुत्वा शिवो हर्षसमन्वितः उवाच मधुरं वाक्यं बोधयं स्ताम् सहेतुकं शिव उवाच शृणुदेवि पुरावृत्तं येन त्वं मत्प्रिया भवः तत्तेऽहं कथयिष्यामि कथासारं सुखप्रदं विवादपञ्चदेवानां स्पर्धया समभूचयः तत्रैश्वर्यं मया दृष्टं त्वदीयं महदद्भुतम् पञ्चानां बोधको देवो गणेशोऽन्तर्दधे यदा बोधयित्वा यथा अस्मान् ब्रह्ममय प्रभुः ततो मया, प्रभु मया तपस्तप्तं तव प्राप्तौ प्रिये महद भक्तिभावेन सन्तुष्टा जादा शतवर्षतः मत्समीपे समागम्य वृणुष्वरमीप्सितम् महादेव प्रसन्नादेक चा ब्रवी न स्तुवाचेषितूपकवा जगदीशरी मै प्रयाचिदी मे पत्नी भवप्रिये, एष एव वरो मह्यं दातव्यो जगदीश्वरी मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकं जादा त्वं मे वरं दत्वान्तदानं च कृतं त्वया अतस्त्वं मे प्रिया जादा तव वामाङ्गसम्भूदा लक्ष्मीनारायणप्रिया दक्षिणाङ्गात् समुद्धदा सावित्री ब्रह्मणप्रिया हृदयात्तेजसम्भुदा संज्ञापत्नी रवेरपि इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मि साधयत्वं पुनर्योगं गणेशं शान्दिदं परं मुद्गल उवाच शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा एकान्ते साधयामास योगं गणपतेः परम् पूर्वसंस्कारभावेन स्वल्पकालेन साशिवा शान्तिं प्राप्ता महाभागा प्रययौ शिवसन्निद्धौ मुद्गल उवाच यदि ते दक्ष चेष्टितं गणपस्य च भज सर्वभावेन गणेशं ब्रह्मनायकं तेनत्वं त्वं विघ्नहीनोऽपि भवितासिन संशयः सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवपार्वती संवादसमाप्तिर्नाम सप्तदशोऽध्यायः ॐ